गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टि सेवेन् हरिरुवाच गायत्री परमादेवी भुक्तिमुक्तिप्रदा च तां योजपेतस्य पापानि विनश्यन्ति महान्त्यवि गायत्री कल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तद अष्टोत्तरं सहस्रं वा अथवाष्टशतम् जपेद त्रिसन्ध्यम् ब्रह्मलोकी स्याच्छदम् जत्वा जलम् पिबेद सन्ध्यायाम् सर्वपापद्नीम् देवी मा वाह्यपूजयेद भुवस्व स्वमन्त्रेण युधाम् द्वादशनामभिः गायत्र्यै नमः सावित्र्यै सरस्वत्यै नमो नमः वेदमात्रे जसाङ्कृत्यै ब्रह्मणि कौशिकी क्रमाद साध्व्यै सर्वार्थसाधिन्यै सहस्राक्ष्यै जूर्भुवः स्वरेवम् जुहूयादग्नौ समिदाज्यम् भविष्यतम् अष्टोत्तरसहस्रम् वाप्यथ वाष्टान्तकृतम् धर्मकामादिसिद्ध्यर्थं जुहुयात् सर्वकर्मसु प्रतिमां चन्तनस्वर्णनिर्मितां प्रतिपूज्य च यथालक्ष्यं तु सर्वकामानवाप्नुयाद उत्तरे शिखरे जादा भूम्यां पर्वतवासिनी ब्रह्मणा समनुज्ञादा गच्छदेवि यथा सुखम् इति श्रीगारुडे महापुराणे आचारकाण्डे गायत्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः ओम्